अथर्ग्वेदे सप्तमाष्टके प्रथमोऽध्यायः ओण इन्दो महेतन ऊर्मिन्नविभ्रदर्शसि अभिदेवाम् अजास्याः मति तुष्टोऽधियाहितः सोमो अहिन्वे परावते विभ्रस्य धारया कविः एति पवित्रा सोमो ओ याति विचर्षणिः स नः पवस्पवाजुश्चक्राणश्चारु मद्धरम् बर्हिष्माविभासते स नो भगा आयवाय मे सोमो अदेवेष्वायमत् स नो अद्य वसुत्तये क्रतुविद्गा वित्तमः िश्रवो बृहत् स भवस्तमदा आयकन्द्रक्षा आ देववीतये इन्दमिन्द्राय पीतये स नो अर्षाभिदूत्या अन्तमिन्द्राय तोषसे देवान्सखिभ्य आवरम् उत तामरुणम् भयङ्गोभिरञ्जोमदा आयकम् पिनो आ राये दुरो अत्यो पवित्रमक्रमे द्वाजेधुरन्नयामने इन्दुर्देवेषु पत्यते स मे सखायो अस्वरन्वने क्रीडन् तमत्यभिम् इन्दुम् नावा अनोषत तया आपवस्वधारयायया आपीतो विचक्षसे इन्दोस्तोत्रे सुवीर्यम् असर्ग्रम् देववे एतयेत्या असहकृत्या क्षलन्तः पर्वतावृथाः परिष्कृता सरिन्दभोजोषे एव्या आवती वायुम् सोमा आसृक्षत एते सोमा आसरिन्दवः प्रयस्वन्तश्चमोऽसुताः निन्द्रम् वर्धन्ति कर्मभिः आधा आवता सुहस्त्यः शुक्रा गृभ्णेतमन्थिना गोभिः श्रेणीतमत्सरम् सर्ववस्वधनञ्जयः अस्मभ्यम् सोमगातुवित् एतम् व्रजन्ति मर्ज्यम् भवमानन्दशक्षिपाः इन्द्रायमत्सरम् मदम् अया सोमस्वकृत्यया महश्चिदभ्यवर्धत मन्दान उद्वृषायते कृतानेतस्य कर्ता चेतम् वेदस्युतर्हणा वृणा च धृष्णश्चयते उक्थयदस्य जायते स्वयङ्कविर्विधर्तरिविप्रायरत्नमिच्छति यदेज्यते धियाः सतोरयीणाम् वाजेश्व भरे एषु जिज्ञुषामसे तन्त्वाभ्रतम् समस्थे महो दिवः चारुम् सुप्रत्यजे ए महे संवृत्तधृष्णभुख्यम् महामहि संवतम् कथम् पुरोक्षणिम् अतस्तारभिराजानम् सुक्रतो दिवः सुवर्णोऽयसिर्भरत् विश्वस्मायत् स्वदृशे साधारणम् मृतस्तुरम् गोपामृतस्य बिर्भरत् अभाहिन् बालहिन्द्रियम् जायो महित्वमा महित्वमानशे अभिष्टिकृद्वितर्षणिः पवस्व वृष्टिमासु नोपा मोर्मिन्दिमस्परे अयक्ष्मा बृहती तयापवस्वधारया या गाव इहागमन् जन्याः स उपनो गृहम् घृतम् पवस्वधारया यज्ञेषु ते पवीतमः अस्मभ्यम् वृष्टिमापव स न ऊर्देव्या अव्ययम् पवित्रधापधारया पवमानो अशिष्य तद्रक्षांस्य परिङ्घनत् रत्नमद्रोचयन्दुजाः वृत्ते सुष्मास ईरते सिन्धो रोर्मेरिवस्वनः बाणस्य चोदया पविम् पसवे त उदे तिस्रो वाचो मखस्युवाः यदौ अव्यो वारेपरिप्रियम् हरिम् पापवस्पमदिन्दम पवित्रन्धारयाकवे अर्कस्य योरिमासदम् सपवस्पमदिन्दम गोभिरञ्जातो अत्तुभिः इन्द्रमिन्द्राय पीतये अध्वर् यो अद्रिभिः सुतम् सोमम् पवित्र आश्रया मुमेन्द्राय पातवे दिवः त्य इन्दो अन्धसो देवामधोर्व्यश्नते पवमानस्य मरुताः त्वम्भिषो ओम वर्धयन् सुतो मदायभूर्णये वृषम् सोतारमोदये अभ्यर्षविदक्षणपवित्रम् धारया सुतः अभिवाजमुदश्रवाः परिद्युक्षः सनद्रनिर्भरद्वाजन्दो अन्धसा सुबालो अर्ष तव प्रत्नेभिरध्वभिरव्यो भारे परिप्रियः सहस्रधारो यात्तनाः चरुर्नयस्तमीङ् खयेन्दो नदानमीङ् खय वधैर्वधस्नमीङ्खय निशुष्ममिन्दवेषाम् पुरुहोतजनानाम् यो अस्माम् आदिदेशति शतन्न इन्द ऊतिभिः सहस्रम् वाशुचीनाम् पवस्वमम् भयत्रयिः त्ते सुष्मासो अस्थो रक्षोभिन्दन्तो अद्रिवः मृतस्मयाः परिस्पृधाः मयानि जग्भिरोजसारथसङ्गेधने स्तभ्युषा हृदा अस्य रतानि नासे पवमानस्य दूढ्या ऋजयस्ता तम् हिन्वन्दिमदच्युतम् हरिन्नतेषु वाजिनम् किन्तुमिन्द्रायमत्सरम् अस्य प्रत्नामनुद्युतम् शुक्रम् दुदुह्रे अह्रयः पयः सहस्रसामृषिम् अयम् सूर्य इवोपदृगयम् सरांसि धावति सप्त पुना न इन्दविन्द्रयोः यमैयवन्नो अन्धसा पुष्टम् पुष्टम् परिस्रव सोमविश्वा आचसौभगा इन्दो यथा तवस्तवो यथा आते जातमन्धसः निबर्हि प्रिये सदः उत नो अगोपिदश्व त्ववस्व सोमान्धसा मक्षोतमेभिरहभिः योजिनाति न यीयदेहन्तिशत्रुमभीत्या स भवस्व सहस्रजित् अरिसोमऋतम् रहदाशुः पवित्रे अर्षति विड्ढम् रक्षा अंसि दे भजुः यत्सो मो वाजमर्षति शकुन्धारा अपश्युवाः इन्द्रस्य सक्षमा आभिशन्न अभित्वायोषणो दशचारन्न कन्या आनूषत वृज्यसे सोमसातये त्वमिन्द्राजविष्णवे स्वाधुरिन्दो परिस्रव दृस्तोतॄन्पाह्यम् हसः प्रदेधाराः सष्टतोधिपो नयन्ति वृष्टयाः अर्चावाजम् सहस्रिणम् अभिप्रियाणि काव्या विश्वा तक्षाणो अर्षति हरिस्तुञ्जा नः आयुधा ृजान आयुभिरिभो राजे एव श्येनो नवं सुषेदते, सनो नो विश्वादिवो वसोतो पृथिव्या अजे पुनान इन्दवाभर तरत्स मन्देधा था आवति धारा सुतस्यान्धसः तरत्स मन्देधा आवते उस्रावे एतवसो नाम देव्यवसः तरत्स मन्दिधा धस्रजोः पुरुषञ्चोरा सहस्राणि दद्महे तरत्स मन्दीधा आवति आययोस्त्रिंशदन्तना सहस्राणि च दद्महे तरत्स मन्दीधा आवति पवस्व भोजिदश्वजिद्भिश्वजित्सो अभरण्यजित प्रजाभद्रत्नमाभर पवस्वाद्भ्यो अदा आभ्यः पवस्थौषधेभ्यः पवस्त्वधिषणा पवस्त आभ्यः ंसो ओपवमानो विश्वानि दुरितातर अविष्येदनि बर्हिषे पवमानः सर्विदो जायमानो महान् इन्दो विश्वा अभेदसि प्रगायत्रेण गायत पवमानम् वितर्षणिम् इन्दुम् सहस्रदक्षसम् तन्तासहस्रदक्षसमथो असहस्रफर्णसम् अधिवारमपाविशुः अधिवारान् पवमानो अशिष्य तत्कलशाम् अपिधा आवति इन्द्रस्य हाद्या आविशन् इन्द्रस्य सोऽभराधशेषम्भवस्वविचर्षणे प्रजाभद्रेतःभर अयाभीते परिस्रवयस्त इन्दो मदेष्वा अवाहन्नवतेर्नव पुरः सद्य इत्थाभिये दिवो दासाय शम्बरम् अथत्यन्तर्पशंयतुम् परिणो अश्वमस्तविद्गोपदिन्दो हिरण्यवत् क्षराः सहस्रिणीरिशाः पवमानस्य ते भयम् पवित्रमभ्युन्दतः सखि त्वमावृणीमहे ये ते एपवित्रमूर्मयो भिक्षलन्ति धारय तेर्न्नः सोमवृणय स एतमुत्यन्तशक्षिपो मृजन्ति सिन्धुमातरम् समादित्येऽभिरक्षतः समिन्द्रेणोतमाजुना सुत एति पवित्रः संसूर्यस्य रश्मिभिः स लोभकायवायवे पूष्णे पवस्वमधुमान् चारुर्मित्रे मित्रे च उच्चाते जातमन्धसोऽ तिपिषद्भूम् आददे उग्रम् एना विश्वा अन्यर्य आद्युम्नानि मानुषाणाम् शिषा आसन्तोपनामहे स न इन्द्राय यज्य वे परिवो वित्परिस्रव पुषु जातमप्रङ्गोभिर्भङ्गम् परिष्कृतम् इन्दुम् देवा अजाशिशुः अनिर्वर्धन्तु नो अर्षा आणः सोमशङ्गवेक्षस्वपिप्युषेमिषम् वर्धा समुद्रमुख्यम् पवमानो अजेजन दिवश्चित्र्योतिर्वैश्वानरम् रहत पवमानस्य धेरसोमदो ओ राजन्नः विवारमव्यमर्षति पवमानलसस्तपदक्षोभिराजरिद्युमान यस्ते मदोपरेण्यस्तेनापवस्पान्धसा देवा वीरघशंसहा जग्धर्वृत्रमभित्रियंसस्त्यवाजम् दिवे दिवे घोषा अश्वसा असे सम्मिश्लो अरुषो भवसु पस्था श्रीदञ्च्येनो न योनिमा स पवस्मया विधेन्द्रम् वृत्राय हन्तवेंसम् महीरपः सुवीरा आसोपयन्धनाजये एवम सोममेढः पुरा उनानो वर्धनो गिराः श्रोता आसस्तवावसा स्यामवन्वन्त आपुराः सोमौ व्रतेषु जागृहि अपर्धन् पवते मृथोपसोमो अरा औणः गच्छन्निन्द्रस्य निष्कृतम् अहो नो राज आपर स्येन्दो वीरभ्यशाः नर्पा नत्पा कृतो राधो दित्सन्तमाभिन यत्पुना नो मघस्यसे ए पवस्तेन्दो वृषा आसुतः कृते नो यशसो जने विश्वा अपद्विषो ओजहि अस्य सख्ये भजम् यवेन्द्रोद्युम् न उत्तमे सा सह्यामभृतम् यतः याते ते एभीमान्यायुधा तिग्मानि सन्ति धूर्मणे रक्षा आसमस्य नो निरः एते पवित्रमाशवाः विश्वा अन्यभिसौभगा विघ्नन्तो अदुरिता पुरुषुगातो कायभाजिनाः ृण्वन्तो अर्वते अरुवते, मरि भोगवेभ्यर्षन्ति सुष्ठुतिम् इलामस्मभ्यम् संयतम् असाभ्यम् शुनुमदायाप्सु दक्षो गिरिष्ठाः श्येनोनयो निमासत् शुभ्रमन्धो देवपातमप्सु धूतो नृभिः सुतः स्वदन्ति गावः पयोभिः मध्योरसंसधमादेः यास्ते धारा मधुश्च्युतो सृग्रमिन्द ऊतये ताभिः पवित्रमासदः सो अर्षेन्द्राय पीतये तिलो रोमाण्यम् व्ययाः सीदन्यो नावेष्वा त्वमिन्दो परिस्रवस्वादिष्ठो अङ्गिरोऽभ्यः वरि वो विद्घृतम् वजाः अयम् न आप्यम् रहत् एष वृषा पृषौ रतः पवमानो अशस्तिहा करद्वसो जिदाशुषे आपवस्वसहस्रिणम् रलिङ्गो मन्दमश्विनम् पुरुश्चन्द्रम् पुरःस्पृहम् एषस्य परिषिच्यते मनुमृज्यमान आयुभिः पुरुगायः कविक्रतुः सहस्रो ओतिशतामखो विमानो रजसः इन्द्राय पवते पदाह गिरा जात इह सुत इन्दुरिन्द्राय धीयते गिर्यो न आवसताविव अपमानः सुतो नृभिः सोमोभाजमिवासरत् रथे युञ्जन्ति जातवे ऋषे एणाम् तं सो ओतारोधनस्पृतमाशुम् राजा आजयातवे हरिम् विनोतवाजिनम् सुतो विश्वा अर्षन्नभिः श्रियाः शूरो न गोषु तिष्ठति आत इन्दो मदायकम्बयो दुहन्त्यायवाः देवा देवेभ्यो मदो आनः सोमम् पवित्रा सृजता देवेभ्यो देवश्रुत्तमम् एते सोमा आ असृक्षतकृणाना श्रवसे महे मदिमस्य धारया अभिगव्या आनि वीतये एनृम्ना पुनानो अर्षसे सनद्वा आदः परिश्रव उत नो गोमधीरिषो विश्वा अर्षपरिष्टुभाः पुराणो जमदग्निना अवस्पवाचो त्वम् समुद्र्या अपोघ्रियोवाच वीरयन् अवस्वविश्वमेजय तुभ्ये मा भुवनाकवेम हिम्ने सो मतस्थिरे तुभ्यमर्षन्ति सिन्धवः प्रते एबो न भ्रष्टजोधारायन्त्यसश्च ताः अभिशुक्रामुपस्थिरम् इन्द्रायेन्दुम् पुनीतनोऽग्रम् दक्षा पवमानरतः कविः सोमः पवित्रमासदत् दधत् स्तोत्रे सुवीर्यम् आपमस्पसहस्रिणम् रयिम् सोम सुवीर्यम् अस्मे श्रवांसि हारय इषमूर्जम् च पिन्वस इन्द्राय मत्सरिन्द्रमः चकोष्मानिषेलसे सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् मधुमाम् अस्तु एते असृग्रमाशवो दिः परा अंसि बभ्रवाः सोमा आरतस्य धारया इन्द्रम् वर्धन्तो अप्तुरः कृणन्तो विश्वमार्यम् अपघ्नन्तो अरावणः सुता अनुस्वमारजोऽभ्यर्षन्ति बभ्रवाः इन्द्रम् गच्छन्त इन्दवः अयापवस्वधारयाजया सूर्यमरोजयः अयुक्तसूर एकसम्भवमानो मनावधि अन्तरिक्षेण जातवे उतत्या हरितो दशसूरोः अयुक्तजातवे इन्दुरिन्द्र इति ब्रुवन् परितो वायवे सुतङ्गिर इन्द्रायवत्सरम् अं यो वारेषु सिञ्चत अवमानविदारयिमस्मभ्यम् सोमदुष्टरम् यो दूणाशोऽपनुष्यत अभ्यर्षसहस्रिणम् रयिम् गोमन्दमश्विनम् अभिवादमुदश्रवाः सोमो देवो एते धामान्यार्या शुक्राजतस्य धारया वा चङ्गोमन्दमक्षरन् सुता इन्द्राय वज्रिणे सोमा आसो दध्या आशिरः पवित्रमत्यक्षरन् प्रसो ओम मधुमत्तमो राजे अर्ष पवित्रः मधो कवेः मृदन् जाय मोहरिन्न तेषु वाजिनम् इन्दुमिन्द्राय मत्सरम् आपवस्व हिरण्यवदश्वात्सोम वीरवद वाजम् गोमन्दमाभर परिवाजेन वाजयुमम् यो वारेषु सिञ्जत इन्द्रायमधुमत्तमम् कविम् मृजन्ति मज्यन् धेखर्विप्रा अवश्यवाह वृषाकनिक्रदर्शति वृषणन्धेभिरप्तुरंसोमृतस्य धारया मदे विप्राः समस्वरन् पवस्वदेवायुषगिन्द्रम् गच्छतु ते मदाह वायुमारोहधर्मणा पवमानलितोषसे रयिंसोमश्रवाय्यम् प्रियः समुद्रमापिष अमर्धन्पवसे मृधः क्रतुवित्सोमत्सरः मृदस्वादे एव पवमाना असृक्षत सोमा अशुक्रा स इन्दवः अभिविश्वानिकाव्या पवमाना स आशवः शुभ्रा असृग्रमिन्दवः ढन्तो विश्वा अपद्विषाः पवमानादिवस्पर्यन्तरिक्षादसृक्षत पृथिव्या अतिशानवे पुराणः सोमधारजेन्दो विश्वा अपस्रिधाः तर्हि रक्षांसि सुक्रतो अपभ्यन् सोम रक्षसोऽभ्यनिकृदतम् शुष्णमुत्तमम् अस्मेवसो निधारय सोम दिव्यानि पार्थिव इन्दो विश्वा निवार्या वृषा आ सोमद्युमाम् असि वृषा आ देववृषौ रदः कृष्णस्ते वृष्ण्यम् रिशा शवो वृषावनम् वृषा मदाः अश्वो न चक्रदो कृषासङ्गा इन्दो समर्वतः विनो ओ राजे दुरो ओवृधि असृक्षतप्रवाजिनो अगम्यासो मासो अश्वया सुप्रासो अवीरजाशवाः शुम्भमा आनारताजुभिर्मृज्यमानागभस्त्योः पवन्तेवारेः अव्यये ते विश्वा आशुशेवसुसोमादिव्यानि पार्थिवा पवन् रामान्तरिक्ष्या पवमानस्य विश्वमिप्रते सर्गाः असृक्षत सूर्यस्येव न रश्मयाः केतुम् कृण्वन् दिवस्परि विश्वारूपाभ्यर्षसि समुद्रः सोम पिन्वसे हिन्वानो वाचमिष्यसि अक्रान् देवो न सूर्याः इन्दुः पविष्ठते तनः प्रियः कवीनाम् मतेर् सृजदश्वम् रथेरिव ऊर्मिर्यस्ते ए पवित्र आदे ए भावीः पर्यक्षरत सीतम् नृतस्य योतिमा स नो अर्ष पवित्र आमदो यो दे एपवीतमः इन्दीन्द्रायपीतये एषे इन्दो अरुचाभिगायिः पुराणो बलिवस्पृध्योर्जञ्जनाय गिर्वणः हरे सृजान आशिरम् पुरा नो देववेतय इन्द्रस्य याहि निःस्कृतम् युतानो वाजभिर्षयतः प्रहिन्द्रानास इन्दवोच्छासमुद्रमाशवाः धिया जूता असृक्षता मनमृजानास आयवो वृथा समुद्रमिन्दवः अग्मन्नृतस्य योधिमा परिणो याह्यस्तयुर्विश्वापसोऽन्योजसा पाहिनः शर्म वीरवतन्सः पदयुजानऋक्वभिः प्रयेत्समुद्र आहितः आयज्योनिम् हिरण्यजमाशुरतस्य अभिवेना अनूषते यक्षन्ति प्रचेतसः मज्जन्त्यभिचेतसः इन्द्रा मृतस्य योनिमासतम् तन्त्वाभिप्रावचोभितः परिष्कृन्ति मेधसाः सन्तामृजन्त्यायवाः प्रसन्ते मित्रो अर्यमापिबन्ति वरुणः कवे अवमानस्य मरुताः तम् सो ओमपि भश्चितम् पुलानो वाचमिष्यसि इन्दो असहस्रफर्णसम् उतो सहस्रफर्णसम् वाचम् सोममखस्युवम् पुलान पुन इन्दवेषाम् पुरुहूतजनानाम् प्रियः समुद्रमाविश दविद्युदत्याभृतापरिष्टो भन्त्या कृपा सोमाः शुक्रागवा शिरः इन्बानो हेतृभिर्यत आवाजम् वाज्यक्रमीत सीदन्तो मनुषो यथा ऋधक्सो ओमस्तये एसञ्जग्मानो दिवः कविः भवस्तसूर्यो इति सप्तमाष्टके प्रथमोऽध्यायः